नमस् सर्वेभ्यः अस्माकं योगनिष्ठजीवनम् इति वर्गे भवतां सर्वेषां स्वागतं किञ्चित् पुनःस्मरणं कृत्वा अग्रे गन्तुं शक्नुमः गतवर्गे योगः कः इति अस्माभिः चर्चितम् अद्यत्वे योगः इत्यस्य कथं दुर्बोधः अस्ति लोके अथवा सर्वथा शब्दः अनवगतः अस्ति लोके इत्यपि विषये अस्माभिः चर्चितवन्तः यद्यपि योगः इति विषयः लोकप्रियः जातः तथापि योगच्छात्राः वा अध्यापकाः वा ते योगस्य वास्तविकम् अर्थं न जानन्ति तर्हि योगस्य वास्तविकः अर्थः कः इति चेत् एव योगः संयोगः कयोः कयो संयोगः संयोगः इति वदामः चेत् वस्तुद्वयं भवेत् तयोः संयोगः इति पृच्छामः चेत् तत्र परिमितस्य अनन्तेन सह संयोगः एव योगः द यूनियन् आफ़् द फ़ैनैट् वित् दि इन् फैनैट् वस्तुतः अस्माकं सर्वेषां जन्म मृत्युः च अस्ति वयं यत् वयं कियन्तः उन्नताः स्मः तथा च वयं द्रष्टुं शक्नुमः यत् शारीरिकरूपेण शारीरिकरूपेण अस्माकम् आरम्भः अन्तः च कालस्य दृष्ट्या वर्तते अपि कस्मिन्नपि क्षणे अस्माकम् आकारः अपि वर्तते अस्माकं शरीरं कुत्र आरभ्यते कुत्र च समाप्तं भवति इति वयं द्रष्टुं शक्नुमः विशिष्टरूपेण परिमितं लिमिटेड् इति वयम् अनुभवामः अस्माकम् एकं नाम वर्तते तद् नाम अस्माकम् अस्तित्वेन सह अथवा अथवा अस्माकं सीमित अस्तित्वेन सह तत् नाम संलग्नम् अस्ति तथा च एकस्मिन् क्षणे वयं रामं श्यामं च इति न अनुभवामः यदि अहं रामः अस्मि तदानीम् अहं रामं श्यामम् अथवा अन्य अन्य यः कोऽपि पुरुषः भवतु तस्य अनुभवः मम भवति यदा रामः रोटिकां क्रेतुम् आपणं गच्छति तर्हि रामः यावत्पर्यन्तम् आपणं न प्राप्नोति तावत्पर्यन्तं सः आपणे अस्ति इति न चिन्तयति सः एकस्मिन् काले एकस्मिन् स्थले एव भवति देशकालपात्राधारेण तस्य अनुभवः भवति कोऽपि पुरुषः अनुभवति यत् तेषाम् एकस्मिन् स्थाने अस्तित्वम् यस्य कालं कालस्य आरम्भः अन्तः च भवति तथा च तस्य भौतिकः आकारः फिसिकल् सैज़् अस्ति यस्य आरम्भः अन्तः भवति सः कस्मिंश्चित् स्थानविशेषे वर्तते तर्हि अस्मात् स्थानात् अन्यत्र तत् स्थानं पर्यन्तं सः गच्छति मम पादः तावान् दीर्घः अस्ति तस्मात् दीर्घतरः ह्रस्वतरः वा अस्ति दिवे इति एतत् सर्वं तत्र परिमितस्य परिमितस्य अनुभवः अस्ति अस्माकं सर्वेषां परिमितस्य अनुभवः अस्ति तर्हि योगः इत्युक्ते परिमितस्य सीमिते सीमितस्य परिमितस्य सीमितस्य अनन्तेन सह संयोगः एव योगः इति उक्तम् अस्तु ततः अग्रे भवति अहं ब्रह्मास्मि इत्यस्य विषये अपि चर्चितवन्तः अहं ब्रह्मास्मि इति वाकस्य वाक्यस्य विषये चर्चां कृतवन्तः अहम् अहं तद् अनन्तसत्ता अपि च अस्माभिः उक्तं यत् केवलम् अहं रमास्मि इति पठनेन कण्ठस्थीकरणेन साक्षात्कारः न तयोः विषयोः महान् भेदः वर्तते अहं रमास्मि इति वचनस्य कथने कथनेन तस्य अर्थस्य साक्षात्कारः न भवति टु बिकम् अस्माभिः उक्तं यत् तत्र समुद्रं वा विशालं पर्वतं वा पश्यामः चेत् यादृश आनन्दानुभवः भवति तादृश आनन्दानुभवः अस्माभिः साधनाद्वारा प्राप्यते तदेव मनुष्यान् अन्येभ्यः विनक्ति मानवेभ्यः एतानि वस्तूनि बृहत् बृहत् वस्तूनि मानवेभ्यः रोचन्ते रोचन्ते यतोहि तादृश वस्तुभ्यः अस्माभिः क्षणिकरूपेण मानवधर्म धर्मेण सह अस्माकं सम्पर्कः भवति अनन्तेष अनन्तेषण एषणया सह एषणया सह अस्माकं सम्पर्कः भवति इति कृत्वा अस्माभिः आनन्दः अनुभूयते अतः <स्तेव> वस्तुतः वयं परिमिताः न स्मः यद्यपि वयं परिमिताः इति अनुभवामः तथापि वयं परिमिताः न स्मः वयं वयं परिमिताः न स्मः इति कृत्वा एव बृहत् <véhiculeassium> दृष्ट्वा अस्माकं गभीररूपेण उत्साहः भवति वयं तादृशं किमपि पश्यामः चेत् यस्मा यत् यत् अन्ते महत्वस्य विशालतायाः भावं जनयति अतः एव वयं तद्द्रष्टुम् इच्छामः परन्तु तत्तु क्षणिकः अनुभवः एव निरन्तरः अनुभवः नास्ति क्षणिकः अनुभवः एव परन्तु योगी यः योगी अस्ति सः तस्मात् अपि अधिकं कर्तुम् योगी अहं ब्रह्मास्मि इति अस्य वाक्यस्य अर्थः भवितुं प्रयतते तस्य केवलं वाक्यपठनेन तस्य साक्षात्कारः कथं क्रियते तस्मिन् विषये योगी चिन्तयति इति तत्र तत्र अहं ब्रह्मास्मि इति अनुभवं प्राप्तुं कथं प्राप्यते इति चेत् तत्र नेत्रे निमील्य बाह्यजगतः पृथक् स्थले एकस्थलविशेषे उपविश्य नेत्रे निमील्य अन्तः गच्छामः चेत् तदानीम् अस्माकं अभ्यासेन साधनाद्वारा अहं प्रमास्मि इत्यस्य साक्षात्कारः भवति स्म समाधिद्वा द्वारा तर्हि योगस्य लक्ष्यं योगस्य सारः कः इति चेत् साधना एव योगस्य सारः अस्ति तादृश अनुभूतिः साक्षात्कारः साधनाद्वारा प्राप्यते अतः साधना एव योगस्य सारः अस्ति साधना साधनया अथवा साधनाद्वारा अस्माकम् अहं भावस्य अत्र कास्मिक् ऐ इत्यनेन सह एकीकरणं भवति यथा तत्र पर्वतशिखरात् नदी प्रवहति तत् प्रवहति अधः आग आगत्य समुद्रे तत्र निवेशः भवति तथैव अस्माकं प्रत्येकम् अन्तः चैतन्यस्य स्वभावः वर्तते पृथक् निर्वाहम कर्तुं वयं सन्तुष्टः न स्मः पृथक् अस्तित्वं न इच्छामः अनन्तेन सह संयोगम् एव इच्छामः अहं ब्रह्मास्मि इति साक्षात् कर्तुम् इच्छामः तदेव तत्र योगस्य लक्ष्यम् इति तावत्पर्यन्तम् अस्माभिः प्राप्तमासीत् तर्हि इदानीम् अग्रे तत्र मनः इति अस्तु इदानीं तत्र अत्र नूतनविषये एतावता सः सा उक्तः पुनःस्मरणं जातं तर्हि इदानीम् अस्मास्माकं नूतनविषयः अस्ति मनः इति तर्हि यदि वयं वदामः योगी अहं ब्रह्मास्मि इत्यस्य अर्थः भवितुमिच्छति इति वयं वदामः तस्य अर्थः कः तेन किम् इति चेत् अत्र योगः इति एकं विज्ञानम् इति अस्माभिः योगविज्ञानस्य अन्तः एकः सम्पूर्णमनोविज्ञानम् अस्ति द सैन्स् आफ़् द मैण्ड् विच् इस् इन्वाल्ड् इन् योग यस्य विषये वयं बहु अधिकम् अग्रे वदामः अग्रे पक्ष्यामः तत्र तदर्थम् अस्माकं करपत्राणि अपि सन्ति तत्र मनः मनसः भागः के इति विषये तत्र मनोविज्ञानस्य विषये अधिकं वयम् अग्रे पठिष्यामः परन्तु अत्र परिचयरूपेण मनोविज्ञानस्य परिचयरूपेण उच्यते यत् यथा मन्यते तथा वयं भवामः एस् वन् थिङ्ग् सो वन् बिकम्स् यथा वयं चिन्तयामः तथा वयं भवामः वास्तविकतया मनसः स्वाकारः नास्ति मैण्ड् डस् नाट् हेव् अ शेप् आफ़् इट्स् ओन् ब्रेन् हेज् अ शेप् मस्तिष्कस्य आकारः अस्ति किन्तु मनसः आकारः नास्ति मस्तिष्कः अनन्तरं मनः द्वयोः भेदः वर्तते तस्मिन् विषये अपि वयं अग्रे पश्यामः परन्तु इदानीं मनसः स्वकीयः आकारः नास्ति यथा वयं चिन्तयामः तद्वत् वयं भवामः यदि सर्वदा धनस्य विषये एव चिन्तयामः तर्हि तैः विश् विचारैः मनः स्थूलं भवति तदनुसारम् अस्माकं रुचिः अरुचिः च परिवर्तते जीवनस्य कस्मिन्नपि क्षणे मनसः स्थितिं ज्ञातुं शक्यते यत् तस्मिन् समये तस्मिन् क्षणे जीवने वयं किं किं प्रति वयम् आकृष्टं भवामः इति वयं चिन्तयितुं शक्नुमः इदानीं मम मनः कस्मिन् विषये चिन्तयति केभ्यश्चित् जनेभ्यः मद्यपानं रोचते केचन जनाः तत्र पार्टीं कर्तुम् इच्छन्ति ते तेषु विषयेषु तेषाम् आकर्षणं भवति ते, ते, ते तस्य विषये तेषाम् आकर्षणम् अस्ति तेभ्यः तादृश विषयाः विषयाः रोचन्ते तर्हि ते सप्ताहान्ते तर तस्य विषये एव चिन्तनं कर्तुमिच्छन्ति तद् न त्यक्तुमिच्छन्ति अन्ये जनाः ये सन्ति तेषां कृते तु तत्र किं हैकिङ्ग् कर्तुमिच्छन्ति वनप्रदेशं कर्तुमिच्छन्ति पर्वतं द्रष्टुमिच्छन्ति ते स्वपरिसरस्य प्रकृतेः शान् शान् शान्तवातावरणस्य विषये तेषां प्राधान्यं भवति तस्मिन् विषये एव ते चिन्तयन्ति एवं तत्र मनुष्येषु रुचिः अरुचिः इति विषये भेदः अस्ति सा मनुष्येषु या रुचिः वर्तते सा मनुष्यस्य मनसः स्थितिमेव प्रतिबिम्बयति सा स्थितिः स्थिरस्थितिः नास्ति मनः यस्मिन् कस्मिन्नपि विषये चिन्तयति सा स्थितिः स्थिरस्थितिः नास्ति सो एस् वन् थिङ्ग्स् वन् बिक सो वन् बिकम्स् देक्ट् इस् दैण्ड् डस् नाट् हेव् अ शेप् आफ़् इट्स् ओन् ब्रेन् हेज् अ शेप् बट् द मैण्ड् डस् नाट् हेव् अ शेप् सो सो एस् वन् थिङ्ग्स् सो वन् बिकम्स् दट् इस् दन्सेप्ट् इफ् इफ़् वन् थिङ्ग्स् अबौट् द इन्फैनैट् देन् वन् बिकम्स् इन्फैनैट् इफ् वन् थिङ्ग्स् अबौट् मनी All the time, then the mind becomes crudified by those thoughts. So, accordingly, one's likings and dislikings changes. Kasyit ek jemshati varsi ahurushaha asti, tasi edhi discotheque rochate, tarhi tataha pancha varsha nantram api, tathaiva tasiya manaha bautiti nasi, tatra manasi parivartanam pavitamarahati. Tarhi ta pancha varsha nantram, tasiya jivanet, tasaha kadapi, ोटेक् प्रति गन्तुमेव इच्छति एवं मनुष्याणां रुचिः अरुचिः इति परिवर्तते जनाः अपि परिवर्तन्ते अतः कस्यचित् मनः एवमेव स्पृष्टम् इति नास्ति इति अर्थः नास्ति अत्र मनः अत्यन्तं परिवर्तनशीलम् अस्ति परिवर्तन अस्ति मनः यथा मन्यते तथा एव भवति मनसः प्रभावः प्रभावः भवितुम् अर्हति इत्यर्थः स मैण्ड् इस् नाट् लैक् अ पासिव् पार्टिसिपेण्ट् सः निष्क्रियं नास्ति निष्क्रियं नास्ति यथा यथा चिन्तयामः तदनुसारं मनः परिवर्तते वयं किं चिन्तयामः इत्यस्मिन् विषये वयं चयनं कर्तुं शक्नुमः वि हाव् द चाय्स् वयं चयनं कर्तुं शक्नुमः यस्मिन् विषये वयं चिन्तयामः इति वयं चयनं कर्तुं शक्नुमः एण्ड् one is not a victim of fate bhagyam ekase vishayasmadhi agre pashyamaha tatra itite one is not a passive participant with no control vayam chayanam kartum shaknumaha yatni vishe aham cintyami iti vayam chayanam kartum shaknumi ah depending on what one thinks the mind will become like that ataha kasyana niskriya sahabhagini nasti यस्य नियन्त्रणं न शक्यते मनसः नियन्त्रणं शक्यते अहं किं चिन्तयामि इत्यस्य निर्णयः अहं कर्तुं शक्नोमि यस्य चिन्तनं कुर्मः मनः तथैव भवति अतः अत्र केचन लैक् युनो टु पार्टि लैक् टु ड्रिङ्क् आल्कोहाल् लैक् टु गो टु अट्राक्टेड् टु मेटीरियल् थिङ्ग्स् दिल् वेरि अट्रेक्टे टु दोस् थिङ्ग् सो दे लव् इट् दे वुडेन् वाण्ट् देट् whereas other people uh, are like more subtle things they like to think about uh, parama purusha they they like to think about infinite they like to go to the uh, the quietness of the nature do meditation there so like that there is a whole range of liking and disliking amongst human beings so that reflects the status of their mind and that status is not a static status etatah kashena sarvada dhanatye visaya cintayati tarhi manaha तेन स्थूलं भवति मनः स्थूलं भवति यदि कश्चित् आकाशस्य सौन्दर्यस्य विषये चिन्तयति तर्हि मनः सूक्ष्मतरं भवति अनन्तं च यदि चिन्तयति परमपुरुषं चिन्तयति तर्हि मनः तथा भवति यथा मन्यते तद्वत् भवति यदि कश्चित् सूक्ष्मं विशालं किमपि यस्य आदिः अन्तः नास्ति तत् चिन्तयति तर्हि मनः तथैव भवति तर्हि मनस् मनः तस्य गुणान् गृह्णाति तदेव योगसाधनया क्रियते अत्र विषयः कः इति चेत् मन मनः मनसः अपारः नास्ति मनः यस्य विषये चिन्तनं करोति तद्वत् मनः भवति परमपुरुषस्य विषये चिन्तयति चेत् परमात्मनः विषये चिन्तयति चेत् तद्वत् मनः सूक्ष्मं भवति तद् तादृशसूक्ष्मबुद्धिः अस्माभिः साधनया द्वारा साध्यते अत्र अस्तु अत्र अत्र अत्र कल्याणी भगिनि वदति वा अत्र सारांशः का इति नमस्ते भगिनि <laughs> यदि इदानीं भवती उक्तवती तद् तस्य मनसः विषये मनसः विषये अस्तु मनसस्य आकारः नास्ति प्रथमं मनसः मनसः क्षम्यतां मनसः आकारः नास्ति मनस मनसि चिन्तनम् आरम्भकालतः अन्तिमकालपर्यन्तं वरे माद्रि से इट् वोण्ट् बि लैक् इट् ओण्ट् बि सेम् यदा वयं बा बा बालवयसि भिन्नरूपेण मनसि चिन्तना भवति परन्तु यदा वयं विंशतिवयस्कः भवति तदनन्तरं चतुर्विंशति तादृशं यदा वयं वृद्ध वृद्धावस्थायां गच्छामः तस्मिन् समये अस्माकं मनस् मनसः भिन्नं भिन्नं भवति आकारः इत्युक्ते क्ष क्षम्यतां चिन्तना भवति तदनन्तरं लैक् मैण्डेड् पीपल् विल् रिलेट् ईसिलि लैक् देट् मनसि उदाहरणार्थं भवती उक्तवती मद्यपानं ये पिबन्ति तस्मिन् विषये एव चिन्तयित्वा तस्य चिन्तना स्थूलः भवति तादृशं परन्तु तदेव सर्वदा भवति वा इति न पञ्चवर्ष वर्षानन्तरं वा दशवर्षानन्तरं मद्यपानम् एव तस्य नाम एव ते न इच्छन्ति तादृशमपि भवितुम् अर्हति अतः वाट् यू तिन्क् सो यु वाट् सो सो यु विल् बिकम् दट् इस् आल्सो द एतदेव अहम् अवगतवती भगिनि सम्यक् सम्यक् समीचीनम् इत्युक्ते तत्र सारां सारांशः सम्यक् तानं कहा इति चेत् यथा वयं चिन्तयामः तद्वत् भवामः अतः यदि अनंतं अनन्तं चिन्तयामः तर्हि मनः अपि अनन्तं, अनन्तं भवति इति एव अत्र मूलविषयः अस्ति यथा चिन्तयामः तद्वत् भवामः अतः तत्र मनः सर्वदा एकदा एव भवति इति नास्ति इत् इत् इस् नाट् अ स्टाटिक् स्टेटस् मनसः परिवर्तनं शक्यते मनसः परिवर्तनं शक्यते इति एव अत्र विषयः तदेव योगसाधनाद्वारा अस्माभिः क्रियते तत्र एकाग्ररूपेण परमात्मनः चिन्तनं परमपुरुषस्य चिन्तनं कथं क्रियते इत्येव योगसाधनाद्वारा क्रियते तर्हि योगसाधना मेडिटेशन् इत्यस्य अर्थः कः साधना इत्युक्ते प्रयत्नः चेष्टा चेष्टा इत्यर्थः तर्हि वयं विविधक्षेत्रेषु चेष्टां हा। कर्तुं शक्नुमः परिश्रमं कर्तुं शक्नुमः तत्रापि साधना शब्दस्य प्रयोगः शक्यते तत्र साधनाशब्दस्य पूर्वम् अन्यत् शब्दं अन्यत् पदं स्थापयामः यथा सङ्गीतसाधना कश्चन सङ्गीतसाधनां कर्तुम् इच्छति कर्तुं शक्नोति कश्चन अन्यकस्य यस्य कस्यापि साधनां कर्तुं शक्नोति काष्ठकार्यस्य साधनां कर्तुं शक्नोति कार्पेण्ट्रि इत्यस्य साधनां कर्तुं शक्नोति किन्तु यदा वयं केवलं साधना इति शब्दस्य प्रयोगं कुर्मः तदानीं साधना इत्युक्ते योगसाधना इत्येव अर्थः अन्ये अन्ये अन्यस्य विषये तु तत्र सङ्गीतसाधना इत्येवम् एवं रीत्या वयं वदामः अत्र योगसाधना इत्यत्र साधना इति वयं वदामः यदि कश्चित् तस्य शब्दस्य पूर्वं विशिष्टपदं न उपयुज्यते तर्हि वयं योगसाधनाम् आध्यात्मिकसाधनाम् इति एव वदामः अनेन वयं स्वम् आनन्देन सह तादात्म्यं कर्तुं प्रयतामहे वि आर् ट्रैङ्ग् टु ऐडेण्टिफै वन् सेल्फ् वित् दि इन्फिनैट् तस्य मार्गः अनन्तस्य विषये चिन्तनं भवति तदर्थम् एका पद्धतिः अस्ति तदर्थम् एका एका पद्धतिः अस्ति देस् ए टेक्नीक् फार् डूयिङ्ग् साधना अनन्तचिन्तनार्थं मनः स्पष्टतया तत्र स्पष्टतया मनः समर्पणीयम् अस्ति अनन्तविषये एकाग्र एकाग्रचिन्तनम् एव साधना इति वयं वदामः अनन्तचिन्तनार्थं अस्मा मनः समर्प्य मनः समर्प्य अनन्तरम् अनन्तविषये एकाग्रचिन्तनम् एव साधना मन मनः यथा चिन्तयति तद्वद् भवति तर्हि अनन्तस्य विषये चिन्तयामः चेत् मनः अपि तथा भवति इदमेव अस्ति योगजीवनस्य बीजम् तत्र योगे योगस्य बहवः बहूनि अङ्गानि सन्ति योगाङ्गानि तेषु साधना एव प्रधानभूता वर्तते तर्हि समानमस्ति अस्तु अस्तु तर्हि इदानीं योगः इति व्यवहारिकविज्ञानमस्ति योगः इति व्यवहारिकविज्ञानमस्ति आरम्भे युनो अनन्तचिन्तनं सुकरं नास्ति सरलं नास्ति सरलं नास्ति तस्य कृते अत्र एका पद्धतिः वर्तते साधना कथं क्रियते इति तत्र एका पद्धतिः वर्तते तद् वयं आ, अग्रे वयं ज्ञास्यामः परन्तु अत्र योगसाधना साधना साधनायां तत्र विघ्नाः भवन्ति बहूनि बहवः विघ्नाः भवन्ति एव यतोहि योगसाधना सुकरं नास्ति यदि तत्र तत्र श्वः परीक्षा दातव्या अथवा कार्यालये मीटिङ्ग् अस्ति तदानीं वयं किं तत्र मनसि विविधाः विचाराः आगच्छन्ति तस्मिन् विषये यथा यथा तत्र मनः कथं भवति इति चेत् त्रिवर्षीयः बालकः यथा अथवा वानरः यथा सर्वदा वानरः चञ्चलः भवति अथवा तत्र लघुबालकः सर्वदा चञ्चलः भवति इतः ततः गच्छति सर्वदा एकस्मिन् एकस्मिन् विषये सः सातुं न शक्नोति तथा मनः अपि सर्वत्र भ्रमति एकत्र न तिष्ठति एकस्मिन् क्षणे एकत्र न तिष्ठति अतः साधना इति विषयः सरलः नास्ति तत्र विघ्नाः अवश्यं भवन्ति एव यदि वयं वदामः हे मनः अत्र सम्यक्तया तिष्ठतु इति तदानीं तत्र मनः न तिष्ठति इति अस्माकं अनुभवः अस्ति अतः तत्र कश्चन सङ् सङ्घर्षः अस्ति एव किन्तु तदर्थं साहाय्यं कर्तुं तत्र अत्र योगद्वारा सहाय अस्माकं लभ्यते तत्र साधना तत्र अस्माभिः पद्मासने उपविश्य नेत्रे निमील्य ध्यानं करणीयं तदेव तत्र साधना इति साधनायां साधना कथं करणीया इति तत्र पद्धति अस्ति तत्र कथं मनः एकाग्रीकरणं मनसः एकाग्रीकरणं कथं भवति इति एकाग्रतया अनन्तचिन्तनं कथं करणीयम् इति तत्र पद्धतिः अस्ति तत् तया पद्धत्या अस्माभिः साधनां कर्तुं शक्नुमः तत्तु अभ्यासेन भवति तदर्थमेव योगनिष्ठजीवनं तदर्थम् अस्माकम् आहारः कथं भवेत् व्यवहारः कथं भवेत् इति तत्र सर्वत्र नियमाः न्ति तदेव वयं आहारस्य विषये किञ्चित् अनन्तरं पश्यामः एतत् एतद् योगनिष्ठजीवनस्य ये ये अंशाः सन्ति तेषां सर्वेषाम् अस्माकं जीवने यदा प्राक्टिकल् रूपेण आनयामः तदानिम अस्माकं शरीरं, अस्माकं मनः सर्वं सम्यक् भवति साधनां कर्तुं अस्तु या अस्तु इदानीं साधना इत्यस्य विषये किं प्रियभगिनी वक्तुमिच्छति वा भगिनी न महोदय प्रिया भगिनी वक्तुमिच्छति वा ही श्रूयते भगिनि अस्तु तर्हि भगिनी वदतु साधना इत्युक्ते मनसि यत्र uh, यत्र uh, स्थापयामि तस्य आकारः एव स्वीकरोति सो so, तत्र मनसि द मैण्ड् डस् नाट् आल्वेस् स्टे आन् वाट् वी वाण्ट् टु इट् टु स्टे आन् प्रयत्नं सर्वदा करणीयं uh, उत मनस uh, मनः सर्वदा परब्रह्म उपरि एव परब्रह्मण उपरि एव भवेत् इति किन्तु तत् तत् न करोति अतः साध प्रयत्नं करणं प्रयत्नम् एव सा साधना इति उच्यते अनन्त अनन्तरम् इत्युक्ते परब्रह्म परब्रह्मणि विषये एकचिन्तनं साधना भवति अण्ड् अपि च तत् साधनां निरन्तरान् निरन्तरम् अपि भवनीयम् अपि च एकपद्धतिः अपि अस्ति तत् क्रमेण तत् क्रमेण भवति हौ टु विड्रो द मैण्ड्स् आफ़् द वर्ल्ड् इति तत्र पद्धतिः अस्ति हौ टु विड्रो द मैण्ड्स् आफ़् दर्ड् सिस्टमेटिक्लि इति पद्धतिः अस्ति वदतु अन्यत् किमपि वक्तव्यं वा भगिनि न श्रूयते क्षम्यता न गृहीतवती अस्तु अस्तु नास्ति चिन्ता तर्हि तत्र वक्तुमिच्छति वा किमर्थं साधना करणीयम् इत्युक्ते अस्माकं मनः यदा बालस्य मनः अस्ति तादृशमेव अस्ति अथवा बानरस्य स्वभावः अस्ति तादृशम् mm. अस्ति इतः ततः गच्छति अतः एव बहु प्रयत्नः करणीयः अस्माभिः तदर्थं साधना आवश्यकी अस्ति इत्युक्ते अत्र योगः व्यवहारिकविज्ञानकल् सैन्स् प्राक्टिकल् सैन्स् तत्र सिस्टमाटिक्लि अस्मान् बोधयति तत्र साधना कथं करणीया इति सिस्टमेटिक्लि बोधयति तत्र यस्य कस्यचित् विषये चिन्तनं यदा करणीयं तदानीमेव वयम् अवगन्तुं शक्नुमः मनः एकत्र न तिष्ठति एवमेव परब्रह्मणः विषये भवतु परमपुरुषस्य विषये भवतु यस्य कस्य विषये अस्माकं मनः इतः ततः गच्छति अतः साधना विषयः सुलभः नास्ति तर्हि तत् कथं साधना इति तत्र पद्धतिः अस्ति क्रमेण कथं साधना करणीया how to systematically withdraw the mind from the objects of the world iti kramena paddhati asti tarhi vayam avagantam satnamaha yogi yaha asti saha avagacchati yat sadanayam vighnah bhavanti iti saha avagacchati tad tad sangharsham kartum saha icchati saha sangharsham kartum prayatate yogina sangharsham kartum prayatate iti iti atra visayah asti tabhi atra यदि तत्र तदर्थं सहायं कर्तुं योगनिष्ठजीवनं यत्किमपि वयं कुर्मः योगीयः यत्किमपि योगी करोति जीवने तत्सर्वं साधनां कर्तुं सहायं कुर् साधनं कर्तुं तानि सर्वाणि अपि साहाय्यं कुर्वन्ति इत्युक्ते तत्र योगासनानि वा भवतु योगासनानि वा अथवा आहारः वा भवतु व्यवहारः भवतु प्रतिक्षणं कथम् व्यवहारः भवेत् इति तदर्थं सर्वं तत्र नियमाः सन्ति तेषां नियमानां पालनं यदा वयं सम्यक्तया कुर्मः तदानीं साधनायां क्लेशः अधिकः क्लेशः न भवति अभ्यासेन क्रमेण अस्माकं तत्र वर्धनम् mm -hmm. यो, योग, एव भवति साधनायाम् अस्तु योग योगस्य बीजमेव साधना एव योगस्य बीजमस्ति तत्र द कक्स् आफ़् योग इस् इन् साधना यतोहि योगस्य लक्ष्यमेव अनन्तेषणायाः पूर्तिः अनन्तप्राप्तिः एव योगस्य लक्ष्यमस्ति अस्तु तर्हि इदानीं किञ्चित् अग्रे गच्छामः चेत् अत्र योगी इति वयं व्यवहारं कुर्मः खलु योगी योगिनः इति योगी इत्यत्र इनिप्रत्ययः अस्ति इनिप्रत्ययस्य अस्य अस्मिन् वा योगः अस्य अस्मिन् वा इति योगी यस्मिन् पुरुषे योगाभ्यासः प्रचलति सः पुरुषः योगी इत्युक्ते योगी इति वक्तुं तत्र तस्य तस्य वस्त्रेण वा अथवा तस्य जीवनपद्धत्या वा अथवा कुत्र सः निवसति इत्युक्ते ग्रामे न निवसति वा नगरे निवसति वा कुत्र निवसति इत्येतादृशैः विषयैः न कोऽपि सम्बन्धः योगी इत्युक्ते योगी इत्युक्ते सः एवमेव तस्य वस्त्राणि एवमेव भवेयुः अथवा सः अत्र एव वासं कुर्यात् इति तादृशं किमपि नास्ति तेन सह कोऽपि सम्बन्धः एव नास्ति योगी योगी अस्ति वा न वा इति कथं जानीमः इति चेत् यदि सः योगकर्मसु सः प्रवृत्तः चेत् तदानीं सः योगी भवति तद् पुर, योग त तस्मिन् पुरुषे योगकर्माणि कर्माणि तेन योगकर्माणि आचरितं कर्माणि आचरितानि चेत् तदानीं सः योगी भवति तर्हि तत्र योग योग योगी एस् नथिङ्ग् टु डु वित् एनि आफ़् द फार्मालिटीस् औपचारिकताभिः योगिनः सम्बन्धः नास्ति य योगः इति मनसः विज्ञानमस्ति, अस्ति विज्ञानमस्ति, मनः यथा चिन्तयति तथा भवति इति उक्तं यदि दश रूप्यकस्य विषये चिन्तयति तर्हि तद्वत् तद्वत् भवति यदि अनन्तं चिन्तयति त अनन्तं भवति मनसः नियन्त्रणं सुकरं नास्ति इति वयं सर्वे जानीमः वानरेण सह मनसः उपमा कृता अस्ति अथवा त्रिवयस्कीयबालकेन सह तुलना तुलनां कर्तुं शक्नुमः तर्हि अत्र तर, त्रिवयस्कीयः बालकः अस्ति तदानीं वयं वदामः रामः अत्र कृपया उपविशतु इति वदामः चेत् तदानीं सः तथा न करोति कदापि तथा न करोति अतः मनः अपि तथैव अस्ति न सुलभतया तस्य नियन्त्रणं शक्यते वयं वक्तुं शक्नुमः यत् मनः इदानीं परमात्मनः कान्सन्ट्रेटेड् तिन्किङ्ग् करोतु मनः कान्सन्ट्रेटेड् तिन्किङ्ग् करोतु इति वदामः चेत् तदानीं तथा न करोति यद्वयं वदामः तद्वत् मनः न करोति अतः तस्य मनसः नियन्त्रणं कथं करणीयम् इत्येव योगः इत्येव योगस्य विषयः अस्ति इति कृत्वा योगः व्यवहारिकः व्यवहारिकं विज्ञानम् अस्ति कथं दिवसस्य प्रत्येकं क्षणं किं भगिनि प्रिया भगिनि किमपि वक्तुमिच्छति वा भगिनि किमपि वक्तुमिच्छति वा भगिनि ओके, ओके।, ओके इत्युक्ते अत्र योगः इत्यत्र दिवसस्य प्रत्येकं क्षणे प्रत्येकस्मिन् कर्मणि योगः प्रयुक्तः भवति तत्र प्रत्येकस्मिन् क्षणे योगस्य अभ्यासः भवति तर्हि योगस्य बहवः अंशाः सन्ति इदानीं प्राक्टिकल सैन्स् इति कथं तत्र योगनिष्ठजीवनम् अस्माभिः जीवनं तत्र कथं जीवेत् इति अत्र इदानीम् अग्रे वयं वदामः मनसः मनसा एकाग्रतया अनन्तचिन्तनम् एव अस्माकं मानवजीवनस्य लक्ष्यमस्ति प्रत्येकं मनुष्यस्य अन्ते अनन्तेषण अस्ति इति वयं जानीमः सा एषणा एव मानव मानवस्य धर्मः अस्ति जनाः एतत् तथ्यं न अवगच्छन्ति यथा शिशुः मुखे अङ्गुष्ठं स्थापयति बुभुक्षा अस्ति इति कृत्वा परन्तु समाधानं न प्राप्नोति तद्वत् वयम् अस्माकम् अन्ते अनन्तेषणा अस्ति परन्तु अधिकता आधिक्येन जनाः न अवगच्छन्ति सा अनन्तेषणा अस्ति इति येषाम् अन्तश्चक्षुः नेत्राणि उद्घाटितानि ते अनन्तस्य विषये एकाग्ररूपेण चिन्तने ते प्रवृत्ताः भवन्ति मनः यथा चिन्तयति तद्वद् भवति इति अस्माभिः अवगन्तव्यं यस्मिन् विषये चिन्तनं मनः तस्मिन् तस्यां दिशि एव गन्तुम् आरभते अग्रे गन्तुं बाधकाः बहवः विघ्नाः भवन्ति अतः सङ्घर्षः तु अस्ति योगीसङ्घर्षस्य स्वागतं करोति योगीसङ्घर्षस्य स्वागतं करोति अग्रगतिं प्राप्तुम् सः यतते वस्तुतः यदि वयं पादचालनं कर्तुम् इच्छामः तदानीं तत्र पादस्य भूमौ कर्षणं भवति पादस्य भूमौ कर्षणं भवति कर्षणं नाम ट्रेक्शन् भवति तर्हि अस्माकं गतिम् अग्रे कर्तुं भूमौ सङ्घर्षं सङ्घर्षणम् अस्माभिः करणीयम् अग्रे गन्तुं यथा तथा यथा अग्रे गमनार्थं सङ्घर्षः करणीयः तद्वत् अत्र योगनिष्ठे जीवने अपि अस्माभिः सङ्घर्षः करणीयः सङ्घर्षं विना किमपि न प्राप्यते अग्रे गमनार्थं सङ्घर्षः करणीयः जीवने शारीरिकं मानसिकं वा कस्यामपि दिशि अग्रे गन्तुं कर्षणस्य आवश्यकता अस्ति सङ्घर्षस्य आवश्यकता अस्ति सङ्घर्षः इत्युक्ते विघ्नानां निवारणं तेन एव अग्रे गन्तुं शक्नुमः विघ्नानां निवारणं कथम् अस्माभिः करणीयं तेन अग्रे गन्तुं शक्नुमः सङ्घर्षः इस् इनेविटेबल् अतः अत्र तर्हि अस्तु तर्हि इदानीं तत्र योगी इति विषयः अपि अस्माभिः चर्चितः ततः अग्रे तत्र योगनिष्ठजीवनम् इति विषयः इदानीम् आरभ्यते तर्हि इदानीं प्रथमतया शरीर शरीरस्य स्वास्थ्यं शरीरस्य स्वास्थ्यं तर्हि वयं जानीमः मनः शरीरे निवसति मनः शरीरे निवसति तर्हि शरीरं मनसः कृते समीचीनं वातावरणं दातव्यं मनसः शरीरं समीचीनं वातावरणं दातव्यं तेन एव साधनं कर्तुं शक्नुमः यदा वयं तत्र लौकिकरूपेण यदा वयं स्वगृहे निवसामः तद् गृहं यत्किमपि भवतु नाम अपार्ट्मेण्ट् वा भवतु यत्किमपि वा भवतु तस्मिन् कस्मिंश्चित् गृहे वयं वसामः यद् गृहं वयं वदामः मम गृहमिति वयं वदामः एवं मनसः गृहमस्ति इदं शरीरम् अतः तत्र शरीरस्य यद्वातावरणमस्ति तद् मनसः उपरि प्रभावः प्रभावं जनयति अतः अस्माभिः तादृशवातावरणे निवासः करणीयः यदस्माकम् अनुकूलं भवेत् यद् मनसः कृते अनुकूलं भवेत् so इत्युक्ते शरीरम् अनुकूलं भवेत् मन मनसः कृते अनुकूलं वातावरणं प्रदातव्यं तत् कथं भवति इति चेत् मनः तत्र शरीरं स्वस्थं भवेत् शरीरं स्वस्थं भवेत् योगिनः बहुकालात् पूर्वमेव ते अवगतवन्तः यत् शरीरस्य स्वस्थतायाः आवश्यकता वर्तते इति ते, ते अवगतवन्तः शरीरं स्वस्थं स्वस्थः नास्ति चेत् तदानीं शरीरं स्वस्थं न भवति चेत् तदानीं तत्र तत्र रोगेण पीडितः रोगेण पीडितम् इति चिन्तयतु तर्हि तदानीं तत्र, तत्र तत्र, तत्र तादृशपुरुषः साधनां कर्तुं न शक्नोति तत्र पद्मासने न उपवेष्टुं शक्नोति यदि तत्र नीस् आर् नाट् वर्किङ्ग् प्रापर्लि ओर् देर् इस् पेन् इन् द नीस् और् शरीरे कुत्रचित् रोगः अस्ति यु बोडि इस् डिसीस्ड् देन् यु नो वे यु केन् पद्मासन एण्ड् डु साधना युर् मैण्ड् के नाट् फोकस् सो देर् इट्स् वेरि इम्पोर्टेण्ट् टु हेव् अ हेल्दि बोडि अतः एन्वायर्मेण्ट् विैण्ड् रिसैड् हेस् टु बि द बाडि हेस् टु बि हेल्दि Yeah, if the body is healthy then it gives a proper environment for the mind uh, actually it is not only healthy but it should be beyond healthy it should be well synchronized the, uh, the all the glands of the body sarirasya sarva grantayah santi glands they should be working well together all the glands of the body should be well synchronized and well harmonized right ah uh, satra sharirasya kinchit spandanam bhavati एव्रिथिङ्ग् अस्मिन् जगति सर्वस्य किञ्चित् स्पन्दनं भवति स सर्वं जगत् गतिशीलं वर्तते सर्वस्य सम्पूर्णजगत् स्पन्दनात्मकम् अस्ति प्रत्येकं वस्तुनः निश्चितं स्पन्दनं भवति तानि वयं माप मापितुं शक्नुमः तत्र गीतविशेषं यदा वयं गीतं शृण्मः then any what is the frequency we can measure the frequency of each sound depending on the pitch uh, volume etc or the, the frequency of the sound vayam dhwanehe svasya matrayaha mapanam vayam kartum shaktumaha ah bhautika shastrey jana niratah santite et sarvam jnananti sarvam jagat vastu tah spandanaatmakam asti shila shilatah काष्ठपर्यन्तम् अस्माकं शरीरं सर्वं स्पन्दनात्मकमस्ति स्व सर्वस्य स्वकीयं स्पन्दनं वर्तते शरीरे अपि स्पन्दनं भवति तत् शरीरे अपि ग्रन्थयः सन्ति तर्हि तत्र तत्र ग्रन्थिनां सम्यक्तया कार्यम् आवश्यकमस्ति देशुड् बि वेल् सिन्क्रनैस्ड् फोर् द होल् बाडि टु आपरेट् प्रापर्लि सो अत्र लक्ष्यमस्ति शरीरं द बाडि बि हेल्दि शरीरं स्वस्थं भवेत् शरीरस्य स्वास्थ्यम् इत्यत्र बहु प्रधानता दीयते योगिभिः अस्तु अतः एव तत्र उक्तं यदा योगासनं वयं कुर्मः तदानीं किं भवति योगासना योगासनद्वारा तत्र शरीरे अधिकसात्विकता आयाति अधिकसात्विकता आयाति योगासनद्वारा तर्हि तदर्थमेव तत्र आसनानि क्रियते येन तत्र ग्रन्थयः शरीरे ये ग्रन्थयः सन्ति योगासनद्वारा शरीरे ये ग्रन्थयः सन्ति तेषां सर्वेषां सिङ्क्रनैसेषन् हार्मनैसेशन् सम्यक्तया भवति तेषां कार्यं तेषां कार्यं सम्यक्तया भवतु इति कृत्वा योगासनानि वयं कुर्मः तर्हि योगनिश्च जीवनम् इति वयं वदामः चेत् तत्र प्रथमतया शरीरस्य स्वास्थ्यं स्वास्थ्यार्थं तत्र योगासनानि वयं कुर्मः तदनन्तरम् आहारः इति विषयः तदनन्तरं व्यवहारः व्यवहारः इति तर्हि प्रथमतया योगासनानि इति शरीरस्य स्वास्थ्यम् इति वयं चिन्तयामः चेत् प्रथमतया योगासनानि तर्हि योगासनानि तत्र यदा तत्र योगासनं कर्तुं शरीरं प्रवृत्तं भवति तदानीं शरीरे अधिक सात्विकता आयति तद एकम एकमस्ति शरीर शरीरं मनः च अनुकूलयितुं वयं भिन्नभिन्नकार्याणि वयं कर्तुं शक्नुमः योगासनानि इति एकम् उदाहरणमस्ति तत्र मनसः अनुकूलवातावरणं प्रदातव्यम् इति मया उक्तं खलु शरीरेण मनसः अनुकूलं वातावरणं प्रदातव्यम् तदर्थं भिन्नभिन्नकार्याणि वयं कुर्मः तानि कानि इति चेत् प्रथमतया योगासनानि एव योगासनानि इति एकम् अस्ति अत्र लोके बहूनि आसनानि सन्ति बहूनि आसनानि सन्ति देर् आर् तौसण्ड्स् आफ़् वयं तु विशिष्टानि योगासनानि एव वयं कुर्मः तत्र तत्र साधकेन साधनाभ्यासक अभ्यासक यः अस्ति साधकः यः uh he is not he is not interested in all those thousands of asanas there are you know there are thousands of asanas and the sadhaka does not need to be engaged in all those thousands of asanas that is not the goal we are interested in specific asanas which will aid sadhana which will aid us to sit in padmasana and to the sadhana so uh, in the world in all different yoga classes there are like thousands of twisting and dang, uh, tangling and different kinds of postures that the people do which they find difficult to do uh, our goal as yogis is not that atra ite atmakam krite visishta asanaani santi tani eva vayam kurmaha ena atmakam sadanayah krute saulabhyam bhavati so the reason why we are engaging in yoga asanas yoga asanas is to put proper pressure and proper support for the specific gland throughout the body uh, which are very important uh, to able to manage the activities of the mind right sat sarirasya visishta granti shu samyak pidanam pressure samyak samarthanam chetu sthapayitum support tadartham eva vayam yoga asanam yoga asnani vayam kurmah अतः यानि दोस् आसनास् विच् आर् इम्पार्टेण्ट् टु मेनेज् द आक्टिविटीस् आफ़् द मैण्ड् मनु मनसः कृते अनुकूलं वातावरणं निर्मातुं तदर्थं वयं यत्नं कुर्मः तदर्थं वयं योगासनानां योगासनानि कुर्मः तदर्थमेव वयं योगासनानि कुर्मः यदि किं भगिनि i can't hear you beginning priya bhain kim bhavati sorry sir ah parantu idaninta tra idaninta na loke kim bhavati chit people have you know segregated the yogasanas from yoga the actual yoga and they focused only on yogasanas So, सो एव्रिवेर् इन् दर्ल्ड् वेन् योग इट् yoga ओन्लि अबौट् योगासन परन्तु योगासनात् किम् अवगन्तव्यम् इति चेत् योगासनम् इति एकः अंशः एव अस्ति योगस्य ते अद्यत्वे जनाः योगात् योगाभ्यासात् केवलं योगासनानि एव पृथक् कुर्वन्ति तदानीं तद् तानि तदानीं तत् तद, तानि तानि आसनानि वास्तविककार्याणि न कुर्वन्ति योगासनानि साधनाया सहायार्थमेव योगासनानि क्रियन्ते साधनायाः कृते शरीरं सुसन्तुलितं भवेत् तदानीमेव मनः शान्तं भवति सो द योगासन डन् इङ्ग् आफ् द साधना साधना बिकास् वे वाट् द बाडि टु बि इन् अ वेल् बालेन्स्ड् स्टेट् सो दट् मैण्ड् केन् बि काम् अण्ड् पीस्फुल् अन्यथा यदि शरीरम् राजसिकं भवति तर्हि तत्र एकत्र वयं स्थिररूपेण उपवेष्टुं न शक्नुमः अथवा शरीरे हेड् अ स्ट्रोक् अथवा तेषां शरीरस्य वन् पार्ट् आफ़् द बाडि इस् नाट् वर्किङ्ग् हेण्ड्लिम्स् आर् नाट् वर्किङ्ग् तदानीं तादृशपुरुषः योगासनमपि न कर्तुं शक्नोति साधनमपि अपिना कर्तुं saptnoti so if somebody might have had a stroke or they might have lost the use of half of the body then uh, you know they cannot proceed further agragati hi na bhavati if the body is not in a proper state then uh, the mind which resides in the body is not will not be able to move ahead so we are talking about the movement from uh, finite to the infinite so moving from the imperfection to perfection so the place where the mind lives is very important right so tadevata trayogasanaani iti bahuni santi but we are not going to be focusing on all of those we are going to be focusing on uh specific asanas which are important for sadhana okay idanim reema vadne vakti ne chativa tatra sharirasya swasthyam anantram yogasanani अस्ति वा भगिनि अस्तु तर्हि सरला भगिनी वदतु नमस्कार भगिनी वयं दृष्टवन्तः मन साधना कृते बहु मुख्य प्रधानः भवति साधना कृते तस्य मनस् मनसः एकाग्रता कृतं शरीरम् अपि मुख्यम् अस्ति तु शरीरस्य स्वास्थ्यं यदि सम्यक् नास्ति तो आसनं न कर्तुं शक्नुमः मन अपि एकाग्र न भवितुं शक्नोति तु इति प्रथमम् अस्माकम् इति अस्ति किं वयम् आरोग्यं सम्यक् कुर्मः इति यदि भवति तदानीम् अस्माकं साधना अग्रे वर्धनं भवति साधनां साधनायां स्वास्थ्य यदि अस्ति यदि स्वास्थ्यकृते केवलम् आसनानि इति नासीत् किन्तु भवती उक्तवती आहारः एक मुख्य अस्ति किन्तु स्वास्थ्य यदि शरीरं स्वा, शरीर स्वास्थ्यं सम्यक् अस्ति तत्र सर्वे ग्रन्थाः ये भवन्ति शरीरे ते तेषां हार्मोनैज़ेषन् इति भवति अनेन अस्माकं स्वास्थ्यं अनुकूलं भवति साधना कृते यदि योगासन आसनानि बहवः सन्ति किन्तु न केवलं यथा भवती गतसप्ताहे उक्तवती इति योगा स्टुडियो इति केवलमिति न ना योगासनानि कृते अहं सम्यक् कर्तुं शक्नोमि इति अस्माकं लक्ष्य नास्ति अस्माकं लक्ष्य परमपुरमे परमेश्वरस्य तो यदि वयम् आस् तस्य कृते स्वास्थ्यं तदनन्तरं मनः एकाग्रं साधना इति करणीयं या, यदि वयम् इति सोपा इति त्रीणि सोपानानि यदि शरीरस्य स्वास्थ्यं मनसः एकाग्रता शान्तिः इति पश्यामः एकाग्रता कथम् आगच्छति मम मनः तु चञ्चलः अस्ति यदि चञ्चलं मनः अस्ति तस्य एकाग्रता आनेतव्यं तस्य एक प्रकारः भवति तु शरीरस्य स्वास्थ्यं सम्यक् कर्तव्यम् आहारः सम्यक् खादितव्यम् अपि अनेन अस्माकं सङ्गमपि सम्य यथा वयं चिन् चिन्तयामः तत् सङ्गमपि अस्माकं भवेत् इति अपि मुख्यमस्ति तो अनेन अस्माकं साधना सम्यक् भवितुं शक्नोति इति सो विचारः अपि अस्माकं मनसि कानि विचाराणि आगच्छन्ति तस्य अपि वयं साक्षी कुर्मः Uh, मनः विचारः कुत्र गच्छति यत् अहम् एकाग्र कथं कुर्मः तो तत् इतरतरं यदि मनः धावति तत्र तेन तेन अस्माकं साधना न भवितुं शक्नोति uh, सजातीयविचारः अहं ब्रह्मास्मि इति uh, यदि वयं uh, कुर्मः तस्मिन् अनेन एकः विचारः uh, भवति uh, सदैव मनः सतर्करहे uh, भवेत् इति अस्माकं शांत एकाग्र सतर्क मन मनसा एव साधना कर्तुं शक्नुमः इति अस्माकं लक्ष्यम् अस्ति तस्य कृते शरीरस्य स्वास्थ्यं सम्यक् करणीयम् कर, कर इति भगिनी समीचीनं इत्युक्ते तत्र इतोपि एकमेव वक्तव्यं तत्र योगासना to uh, prepare on the gland the fig gland throat the body then uh, at that we get stability to the mind we get composure stability to the mind that <laughs> other the meva asana any uh, yoga asana ni bhavati recommend kar hoti ji ha anant maham <laughs> sukhi ami parni anant maham sukhi ami tatra kani asana ni karani ani iti tatra prathamate you have to learn those asanas right So there is a specific way of doing it. So I, I can actually uh, talk to you about it later on. And we can do yoga asana. So we can do it in the same way. We can do it in the same way. So we can do it in the same way. So we can do it in the same way. लिस्ट् दात दातुं शक्नोमि अनन्तरं अस्तु तर्हि इदानीं किञ्चित् अग्रे गच्छामः तत्र आदौ तत्र वयं वदा किम् उक्तवन्तः इति चेत् योगः व्यवहारिकविज्ञानम् इति इति अस्ति यत् अत्र सर्वस्य मूल्यं तावत्पर्यन्तं न भवति यावत्पर्यन्तं तस्य व्यवहारे आनयनं न So, yoga is a practical science, so everything that we do has a value only to the extent it is brought to practice. At the same time, we learn something. The knowledge is that if we do it, then we do it, then we do it. If we do it, then we do it, then we do it. If we do it, then we do it, then we do it. However, if we do it, then we do it. इतः अग्रे यद् प्राक्टिकल् रूपेण वत् अवगच्छामः तस्य व्यवहारे अस्माभिः आनेतव्यं तदानीमेव अस्माकं शरीरे अस्माकं मनसि कः प्रभावः भवति इति वयं ज्ञातुं शक्नुमः अहं यत्किमपि उक्त्वा अहं गन्तुं शक्नोमि परन्तु तस्य स्वजीवने कथं प्रभावः अस्ति इति यु केन् हाव् अ फस्ट् टाण्ड् एक्स्पीरियन्स् बै योर् सो अल्ल् यु इम्प्लिमेण्ट् द वाट् एवर् इस् बिङ्ग् सेट् फ्रम् हियर् you are not going to know what the benefits are so you need to implement so adaptam atra vyavaharika vidyanam ekuptam so itaha greta atra yoganisha jivanam katam bhavati iti tasmin evaim chintanam kurmah so whatever we learn we have to put it to practice uh, a yogi is a very practical human being right so all these things uh, that have value in life a yogi seeks to bring it to practice Right? So that is why it is a practical science. So we talked about the value of asanas. So the overall goal of yoga, the setting of the overall yogic approach, the goal of which is sadhana, becoming the infinite, concentrating the mind, concentrating the mind. So that, that is not easy. That is sadhana, uh, yogasana ni sadhana yaha tiritte sahayam kurvanti. It yatra uh, samsayaha eva nasty. परन्तु आसनानि केवलं योगस्य एकः हा अंशः अस्ति अन्ये अपि विषयाः सन्ति ते के इति चेत् इत्र अत्र आहारः इति विषयः आयाति आहारः इति विषयः अस्ति तर्हि अस्मिन् विषये अग्रे वयं पश्यामः अग्रिमसप्ताहे परन्तु अत्र एकं वक्तव्यम् अत्र जगति यत्किमपि अस्ति तत्सर्वमपि त्रिगुणात्मिकं त्रिगुणात्मकमस्ति जगति यत्किमपि अस्ति तत्सर्वं त्रिगुणात्मकमस्ति सत्त्वगुणः रजोगुणः तमोगुणः इति त्रयः गुणाः सन्ति सर्वत्र सर्वेषु त्रयः गुणाः सन्ति अस्माकं शरीरेषु अपि त्रयः गुणाः सन्ति इति कृत्वा सर्वत्र त्रयः गुणाः सन्ति तर्हि अत्र कीदृश आहारः अस्माभिः स्वीकर्तव्यः इति विषये अग्रिमसप्ताहात् वयं परिशीलनं तर कुर्मः तर्हि तस्य व्यवहारे अस्माभिः आनेतव्यमस्ति तत्र सात् अस्माकं लक्ष्यं तु सात्विक सात्विकाहारः सात्विकाहारः एव अस्माकं लक्ष्य लक्ष्यमस्ति तद् तत्र किं किम् अस्माभिः स्वीकर्तव्यम् इत्यत्र अग्रिमसप्ताहे वयं द्रक्ष्यामः तर्हि अत्र एतावता कोऽपि प्रश्नः अस्ति अस्तु तर्हि अत्र स्थगनं कुर्मः धन्यवादः नमस्कारः धन्यवादः शुभजाते धन्यवादः